त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः यदा वरमदोन्मत्तो न्यवसद्दानवो दिवि अथ लोकान् समस्तांश्च विजित्य समहासुरः भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः सलिलञ्चान्तरिक्षं च नक्षत्राणि दिशो दश अहं क्रोधश्च कामश्च वरुणो वसवोर्यमा धनदश्च धनाध्यक्षो यक्षः किम् पुरुषाधिपः एते भवेयमित्युक्त्वा स्वयम् भूत्वा बलात् स च गृहीत्वा स्थानानि तेषाम् कार्याण्यवापसः युज्यश्चासीन्मखवरैः सतैर्देवर्षिसत्तमैः नरकस्थान् समानीय स्वर्गस्थांस्तांश्चकारसः एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली आश्रमेषु महाभागान् मुनीन् वै संशितव्रतान् सत्यधर्मपरान्दान्तान् पुराधर्षितवांश्च सः यज्ञीयान् कृतवान् दैत्यानयज्ञीयांश्च देवताः यत्र यत्र सुराजग्मुस्तत्र तत्र व्रजत्युत स्थानानि देवतानान्तु हृत्वा राज्यमपालयत् पञ्चकोट्यश्च वर्षाणि नियुतान्येकषष्टि च षष्टिश्चैव सहस्राणां जग्मुस्तस्य दुरात्मनः एतद्वर्षं स दैत्येन्द्रो भोगैश्वर्यमवापसः तेनातिबाध्यमानास्ते दैत्येन्द्रेण बलीयसा ब्रह्मलोकं सुराजग्मुः सर्वे शक्रपुरोगमाः पितामहं समासाद्य खिन्ना प्राञ्जलयोऽब्रुवन्